गरुडपुराणम् आचारकाण्डम् अध्यायम् तर्टि सिक्स् हरिरुवाच सन्ध्याविधिम् प्रवक्ष्यामि शृणु रुद्राखनाशनम् प्राणायामत्रयम् कृत्वा सन्ध्यास्नानमुपक्रमेद सप्रणवान् सव्याहृदिम् गायत्रीम् शिरसा सः त्रिप्पठे दायद प्रणः प्राणायामस उच्यते मनो वाक्राय जम् दोषम् प्राणायामैर्दहे द्विजः तस्मात् सर्वेषु कालेषु प्राणायामपरो भवेत् सायमग्निश्च मेत्युक् सायमग्निश्च मेत्युक् प्रादः सूर्येत्यप्यपिभेद आपः पुनन्तु मध्याह्ने उपस्पृश्य यथा विधि अपोहिष्टेत्यर्च कुर्चान् मर् कुर्यान्मार्जनं तु कुश्योदकैः प्रणवे न तु संयुक्तं क्षिपे द्वारिपदे पदे, पदे। रजस्तमस्वमोहोद्धान् जाग्रत्स्वप्नसुषुप्तिजान् वाङ्मनकर्मजान् दोषान्न वैतान्नवभिर्दहेद समुद्धृत्योदकम् पाणौ जत्वा च द्रुपदांक्षिपेद त्रिपष्टौ त्रिपदष्टौ द्वादशधा वर्तयेदखमर्पणम् उद्त्यञ्चित्रमित्याभ्यामुपतिष्ठेद् दिवाकरम् दिवारात्रौ च यत्पापम् सर्वम् नश्यति तत्क्षणाद् पूर्वसन्ध्याम् जपम् तिष्ठेत् पश्चिमामुपविश्य च महाव्याहृदि संयुक्ताम् गायत्रीम् दशभिर्जन्मजनितं शदेन दुपुराकृतम् त्रियुगम् तु सहस्रेण गायत्रीम् हन्ति दुष्कृतम् रक्ता सावित्री शुक्लवर्णिका कृष्णा सरस्वती सन्ध्यात्रयमुदाहृदम् ॐ भूर्विन्यस्य हृदये ॐ भुवशिरसिन्यसेद ॐ स्वरिदिशिखायां च गायत्र्या प्रथमं पदं विन्यस्येत् कवचे विद्वान् द्वितीयं नेत्रयोर्न्यसेद तृतीयेनाङ्गविन्यासं चतुर्धं सर्वतोऽन्यसेद सन्ध्याकाले तु विन्यस्य जपे द्वैवेदमातरम् शिवस्तस्यास्तु सर्वाह्णे प्राणायामपरम्यसेद त्रिपदायादु गायत्री ब्रह्मविष्णुमहेश्वरी विनियोगमृषिच्छन्दो ज्ञात्वादु जपमारभेद सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयाद परो रजसि सारं तं तुरीयपदमीरिदं तं हन्ति सूर्यसन्ध्यायां नोपास्तिं कुरुदे तु यः तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च छन्दस्तु देवी गायत्री परमात्मा च देवता इति श्रीगारुडे महापुराणे आचारकाण्डे सन्ध्याविधिर्नाम षटत्रिंशोऽध्यायः ओम्